कृष्णयजुर्वेदतैत्रीयसंहितायाम् तृतीयकाण्डे प्रथमः प्रश्नः प्रारम्भः रजासृजे यत लभवदप्य दश धान सृजदशोकामेन प्रजासृजे ये ऋषद्वीयवदव्य दशभयाविष्य सृज दश कामेन प्रजाश्रुजे ये त्रिषीय मदप्यदश हैक्षिण माधमवश्यत्तमवदत्त प्रजा मेत्यम्ब्यस्य स्म एक्षा कामने लवश्यारो ये ज्ञा दरित्रं चक्षुर्योशाश्रेष्ठेमादि कामदिनाश्च दिव्यारोगा ग्रन्थे दत्व दत्त मा दीक्षां मा दो गर्भे चायित देव सर्वमात्मन्देनास्यौज बलं न दीक्षान्न दीक्षितस्य देवं हि हन्त भद्रादृष्णे ग्रे बृहस्वति पुरता दे अश्वित्याः ब्रह्म वै देवानां बृहस्पति श्रमेवान्ना नवदेशेन संवादयश्चै नमगन्म देवजनं पृथिव्या इत्यादेवगजन ज्यक्षेत पृथिव्यागच्छजते विश्वे देवाय रजगन्ध गोवत्याह विश्वेश्वे तेवा ज्योतेन्द्रे प्राह्मणार्माभ्या स ैत्यामात्या गृह्ये चैदृषा संहरति याय स्पोषेण समिशाम देवेत्यादिशमेवैतामाशासे एष देवायत्र भाग इति मे सोमाय पुोतादेश देत्रैश्च भो जागत भाग इति मे सोमाय प्रोताच्छन्दो मा राज्यं लोकङ्गमयित्वा क्रीणादिगच्छति स्वानागोसाम्राज्यं छन्दा गोसि खलु वेदोमस्य राज्य साम्राज्योस्तात् सोमस्य क्षया देवमभिनन्दये ददाम्राज्यमेवेण लोकङ्गमयित्वा क्रीणाधिगच्छति स्वानागुणसाम्राज्यो वेता नो न प्रतिष्ठां वेद प्रत्येव निच्छति ब्रह्मवादिना वदन्तिरप्रा अस्मिन् दिनऋनो रक्षं प्रतिष्ठदीर्प्रो यात्रिनो वामन ऋमेषा वेदानो रत्वस्य प्रतिष्ठाय एवं वै रैवे तिष्ठ वाहत्व प्रतिष्ठायं वै रत्येव तिष्ठमन्नेदानो श्यामे एषा वाहत्र प्रतिष्ठाय एवं वै रैवधिष्ठ ष्ठाय या तस्मात्मानस्वस्तदावं वष्ठेयाध्वया स्वं वेदस्व वानेव भव यमस्य मदो यस्वं यद्वार्यव्यं वायवानं भारभ्या श्रावस्मानं भारभ्यादेव मम प्रतिष्ठाप्योत्र प्रगच्छद सोमात्यप्रदि सोमप्रदिष्ट्युत्थान्या प्रगच्छद यजमानः प्रदिश्यम् वेदप्रदिष्टा च मगास्य प्रदिष्टा रामस्ता सोममुत्थानानुग्रहम् वा विमृगम् वीय स्वमस्थापय प्रदिष्टाम प्रत्युत्तार प्रदेजमानस्य प्रत्यध्वर्योः यज्ञं वा एतत्संबरं जगत्स मक्रैन्येभं यज्ञमुखाने याने सहृदयनाक्षमुपाञ्जाज्ञमुख एव यज्ञमलं वनोपत्ने मानयञ्च प्रवर्तयञ्च धारे रीयते सौरध्याय हृदयेश्वर भूत्वा े समुदं जन्मयन् यदस्य वरुश्रवणेन वा जी करमाण वा एतत् श्रवणोहनं कृतमेव राज्यस्यैश्चित्तमध्ये रमयसान् वेदास्तिमाच्य युवति भवि रङ्गे दिनमोर्तिवस्य मूर्तिमेवैषाम् रङ्गे राजगास्ति माच्छन्ति प्रजापते ध्यायमानाम् प्रजाता श्रजायमा तत् श्रीप्रतिप्रवेदयति विद्वामो अनुमन्यता इमम् अशुम्बुपदेते अस्य पद्नाम् निध्ये अनुमन्यस्व सुरीरायजा वजुष्टम् देहानाम् विदमस्त्वम् प्रजानन्दप्रतिबुन्धम् द्विपोरेणमन्दे व्यन्तम् स्वर्कय्याय प्रतिगद्देवया ने रोषदेव प्रतिक्षादे रामे पशुपतिप्रशोलाञ्जलुष्पदा मुदलत्रिपदाे गौरिष्क्रियम् भागवेदुराय स्वीयमानस्य सन्तो हे वध्यमा नमनवध्यमानाग्न्दमनसा चक्षुषा च अग्निस्तागोमग्रे प्रमोक्तदेव प्रजापतिप्रजयासंविधानः प्रहारण्या प्रजमो विश्वरूपा विलोपाः सन्दोपवृदैकलोपाः आयुस्तागोमग्रे प्रममोक्तदेव प्रजापतिप्रजयासंविधानः प्रमुञ्चमाना भुवनश्चले लोगासुन्दैयमानाय देवाः कृतकोशमानञ्जलसा जीवन् देवानामप्येदुपासः बाणो यजमानस्य पशुना यज्ञो देवेऽभिः सारदेवयानः जीवन् देवानामप्ये दुवासः सद्यः सन्तु यजमानस्य कामाः वायुमगोरो वाविनाशे अत्यन्मादस्मानेन गोश्वान्मुन्धत्वमोहसः शमिता नेतनैत्यम् देवेऽपि निमितम् पासात्पशुम्भम् जगतन्दाद्यज्ञपतिम्बरी हरिदिष्पाशम्भो वा क्वेतन्नवः पशुभ्यः पशुपदये करोमि अराजीयम् धमधरम् गृणामियम् विश्वस्तस्मिन् प्रतिबन्धामिपाशम् स्वा वेदेहव्यवहरोतारमुतैक्यम् च जातवेदो उभयागच्छ देवान् दुर्यवतराः प्रथमवरोध युगेन त्वम् धनुवा स्वाहा हविरन्तु देव स्वार देवेभ्यो देवेभ्य त्या वै भगवस्ते राजोरुत्राधिपदर्यवेदाभ्याम् वा करोताभ्यामेव आत्मनस्कार्याम्भागरो दिवाङ्गा भजवनेवा वृन्धे नृत्यदेवानीयते यम् वारवेदप्रमायुको यजमानस्यान्ना प्राणो यजमानस्य वचनेत्यावृत्त्यै आ र्मायमकृते जो वेदमेध्यायता यजुरेवे वा मदेहभ्यमजवाज्ञ मेधमन्धे स्वाहायुस्ता स्वाहा कृतयोगान्यदेवारिष्टा स्वाहा कृतयोन्ये स्वाह देवे तिरो देवे स्वाहेत्यभितो भगवान् यो जानेवो भयान् जनाथे यदा देवतया देवता द्यावृष्टि देवादीयान् भवति यो यथा देवदन्न देवता ध्यावृष्टदेवदीयान् भवत्यापृथिवे वैष्णव्याः नामाज्ञास्तु वायव्यजा वायव्यान्नेन्द्रिया समायदा देवतमेव यज्ञो भजर्दिन देवता जावृष्टदेवदीयान् भवत्या वायु अन्तरिक्षाणते सारेण सारसौर्येण ते कुलचित्स्रूर्यस्यते गदेवता गायत्री छन्द पात्रमृमो देवतान्द कर्यामस्य पात्रमतीन्द्र देवदा जगति छन्द इन्द्रमाय पात्रमदिव देवता नृष्टच्छन्द मित्रावर्णय प्वात्रमस्य अश्विनो देवता मङ्गत्रमधि शुक्रस्य पात्रमसि चन्द देवदा स्वबृहती छन्द मन्त्रिण पात्रमधि देवतोष्ण्यः छन्दः क्रीणस्य पात्रमसीन्द्र देवता कविच्छन्द्रानाम् पात्रमधिपृथी देवताविराच्छन्द ध्रवस्य पात्रमसि इष्टक्लो वार्यवेदमानस्यै गोरो चोक्षीया मामन्त्रयादात्मन एव तदधर्य पुरस्ताम् वेषाय स्वय श्रीयाश्च भोरिभो नो मृत्यमा वा चन्द्राणा वा नो न्देवता दुवायते प्राणापानयोर्यायच्छन्द्रे समुच्यदेवं वेशाय त्वापवेशाय त्वे चागु ध्वीनं वेश उपवेशस्य स्वा देवेन मङ्गरे त्रिभोतं वामरदं धनं भविष्यतश्चान्तरे त्रिपरिमितं वारदन्तरमपरिमितं भगत्परिमितान्तरे स्वामित्वमलक्ष्यव्यमपश्येन वैर्यमरुन्ध्यो दस्यैन्द्रियमेव ध्वेर्यं निजमानो यागो यज्ञादस्य देवदावृन्द इत्यम् कुर्वेदेक्षस्यादपि आख्यम् गुर्वेदपि देवास्य देवतावृन्द त्या वशुसहायं मे दत्पेद प्राणं मे दर्पयता दानं मे दर्पयत ज्ञानं मे दर्पयत यक्षं मे दर्पयत श्रोत्रं मे दर्पयत मनो मे दर्पयत राजं मे तर्पयतात्मानं मे दर्पयन् मे दर्पयत् प्रजां मे दर्पयत् पशून् मे दर्प्यत गृहान् मे दर्पयत् घणान् मे दर्पयत् सर्वगणं मा दर्पयत् तत्पयद मा गणा वेमायो वे रामस्य विलो विदवीरा ीश्वर हरिन्द्रोमो वे मन् बहुदामः इन्द्रेण देवे देवधसंविधानानुमन्यन्ता गोधवनायमित्यादेवेन कृष्पायै शिवस्वायै देवता वै मर्या चाभिदेवन्द्रियं मेदिनं प्रचोदयमाणस्य निरहन्तान्ताय स्पोषेणेन्द्रियं वेद्यं मान स्वदेश इन्द्रियस्य वेद्यस्य प्रजायैवस्य स्कन्दपृथिवीमहत्यामिमन्त्रयोमश्च पूर्वः हृदयेमलसञ्जरङ्गम् दर्शन् योन्यसत्तःहोत्रा ै देवान् देवै हृदय मनुष्यान् मनुष्यै हृदेन देवैरस्यैव देवै भवति मनुष्यै शली मनुष्ये श्रुयान् प्राजेन वाक्रयणान् गणीयात्यानोद्भागस्थानभक्तिमतो देवानेव दत्येवे सेनात्वमनुष्यान्मनुष्ये सेन देवे सत्येव देवे विश्वे देवा मरुत इन्द्रो अस्मानस्मिन् निधि एतौ नेतजक्ष्यो आयुष्मन्तप्रियमेशाम् मदन्तो वयम् देवानाभूतमथो स्यामीय गोसरङ्गवेनामथेन हेतुमथ मेलयन्त हेतो धन्मनाः स्वरानधानाः स्वच्छन्माभिलीयानयन्तो आयतन देवान्याहृतयो गो इन्द्रेनायतनान्यायाः कालो देव आयतनलीया सौम्यास्तायतना गीन्द्रवायव मातायाय वस्तु देवा ओषधे च नो जनाय विश्वस्मै गोकाया धरो शिरबिन्दस्य कृतमत्येव सौमेति सौम्या एव तलाहृति नायतनलेकरायतवान् भवति त्या वा पृथिवी एव कृते नव्यपजीवनीयैवजीवनीयो भवतिभागोयन्निरया यथा सञ्जुस्वभिधेतो भत्यगौ रायस्पोषकौगौ संवत्सरेणागुः स्वस्तिम् पुत्रेभ्यो दायं वयसा भादे ब्रह्मरे यं वसन्त तथा मानिलभागे दिन प्रानिलभाक्षविच्च प्रवेदं गिलिमे सत्रमासवेतेषु वर्गन् लोकन्न प्रयानन्दितेभ्य इदम् ब्राह्मणं गुरोहितेषु वर्गन् लोकयन्तो येषां पशवस्ताश्चन्द्रे रतरेभ्यः प्रवेदेष् वर्गन् लोकयन्तो येषां पशवः हन्ता स्मादृस्तं पशुभिश्चरन्दवास्तु प्रवेण् पशव इत्यमानत्य प्रवेण्ण वैदीश्व प्रवेद्यवास्त्रोदस्माज्ञवास्तुनाभ्यवे प्रवेद्यज्ञे मा भजासते पशोन्नाभिमज्ञस्यैतस्ना एतं मन्त्रस्य वैरस्य रुद्रपशोन्नाद्य ेवम् वित्तापशोनभिमन्यते दृष्टो वाचो भूयासन्दृष्टो वाचस्व दे देविवाक् यद्वाचो मधुमत्तस्मिन्मादास्वादस्वतीयत्रेण निरन्तरम् यत्र वर्तनी यस्येत्रबाहुच्च स्ते पवित्रा कृतलिङ्गायञ्जहोमिदत् पृथिव्याम् परिवापात् पुरोणाचारम्बा सोमान् नन्द्रहाकृतनिङ्गायञ्जहोमिन्द्रिया सः कृतयतिदेवा देव पृथिव्यापर्यन्तरिक्षात् स्वाहा कृतमिङ्गा निरुञ्जहोमि र्युर्वाजाम् प्रथमो युद्धेन सोमो योग्यैत्याैकाग्रे सु देवे सोम यदेवयि जैवानै चेत्याज्ञवास्तु वा एतज्जज्ञस्य क्रियते मानवो दत्पन्त्येव देवै अज्ञा पुनरेत्योपदिक्षते यज्ञा मयि विष्णु यज्ञमेवा कर्विष्णा त्वन्नान्दमशर्म इक्षतम् चेदानामदृष्टिक्षिवित्या हे देवा त्रिजयादश्चितदेवा सीकेनाव्यायीनिवश्योषमेव दिवे दिवे एवम् वेदोत्तमम् भोमागो अग्नेऽपि मागो अस्मि यज्ञो नवत्सरमिदप्रमृश्य प्रजावागो रेभो रेफलोत्मसभावाम आप्याय स्वसंदे विश्वरूपमवग् अस्माकमस्व केवलः तन्नः श्रीपमधपोषयत्मदेव त्वश्च यतो वेदः कर्मण्यः सुरक्षा यत्नग्राभायाय रे देवकामः चतुश्चिरागरेभृपोषत्नः यज्ञयज्ञः शङ्गरूपस्वगरोपयोधा सृष्टिवीरोय रे देवकामः पुरुषाङ्ग्यानो दिव देव्यागोतोदरस्वस्तनय्यो विश्वतरचिल दुक्षे प्रजामि तरस्वगोद्वया मुदमन्तोदश्च महे यस्य व्रतम् वृषभोयम् तिशर्देश्च व्रतमपलिच्छन्ताप यस्य व्रते पृथिव जन्मस्तकोधरस्सन्तमो देवेम दिव्यगोत्रम्बयसम् बृहन्तमपादत्वेन्दोदस्वन्द्रेवादगुरुष्टिया देवानामस्वम्भीनः स्वन् गुरुश्रोमापोपरिपद्य श्री इन्द्रम्ब विश्वरः अजवर्नारयस्वर्णामि वामदानादिवमुत्परम् दे चावोत्तरम् ददामि उत्तारत्वजले चिरण्यगेरजलो विकारे निर्वातयुवजवायापस्य वानहत्या आदेतुवर्णाहमिनन्द एव ये कृष्णानापवृषभोयमेदम् शिवाभिर्णः स्मयमाना विरागात्मसन्तिमेनयम् जभ्रा वास्येव वा विद्यन्ममादिवत्सन्नमातादिशक्ति निष्टिरतज्जि पर्वतश्चिन्महि वृद्धोऽ भारि दिवस्य यत्सानुरेशदस्वेव यत्क्रीडकश्चिरन्तः पोदध्वे चोधवध्वे अभिक्रन्दस्तनय प्रमादा पुदन्वता परियाले सकलषविषिधन्यञ्जनो समापबन्धो परा निरच्युताग्ने पशुन्मयवदे रामायत्ते जलुनावृष्टिम् ऋषित्वग्ने भोरि तव जातवे दवदेव स्वरा भोवृदस्य राम यथाश्च मायामालिनाम् विश्वमिन्वृत्रे भोगे सन्दरुपृष्टबन्धो ृष्टम्पिदानः यन्वन्त्यपो मरुदस्त्वदानवयोदधेष्वा भवत्यन्नमे विन्द्रिवाजिनमस्सन्दहन्तिस्तनयन्द्रमचिरम् गुल्यन्दे विश्वे मरुतो जगन्ति ैव दन्नापेरन्तु जानावृत्येव जायानताम् जनसपञ्च पिन्वधत्रानरामृतस्य मत्नवा नवदाभवे अग्निगोतमुत्रवासरम् इतव्यधाभवस्यैव अग्निगोतमत्रवासदम् उभयवादस्वनम् गभिम् वर्जन्यक्रन्यघोषः इति तृतीयकाण्डे प्रथमः प्रश्नः समाप्तः